तामेवम् ब्रुवतीम् ताराम् ताराधिपलिभाननाम् वाली निर्भर्त्सयामास वचनम् चेदमब्रवीत् गर्जतोऽस्य सुसंरब्धम् भ्रातुः शत्रोर्विशेषतः मर्शयिष्यामि केनापि कारणेन वरानने अधर्षितानाम् शूराणाम् समरेष्व धर्षणामर्षणम् भीरुमरणादतिरिच्यते सोढुम् न च समर्थोऽहम् युद्धकामस्य संयुगे सुग्रीवस्य च संरम्भम् हीनग्रीवस्य गर्जितम् न च कार्यविषादस्ते राघवम् प्रति मत्कृते धर्मज्ञश्च कृतज्ञश्च कथम् पापम् करिष्यति निवर्तस्व सह स्त्रीभिः कथम् भूयोऽनुगच्छसि सौहृदम् दर्शितम् तावन्मयि भक्तिस्त्वया कृता प्रतियोत्स्याम्यहम् गत्वा सुग्रीवम् जहि सम्भ्रमम् दर्पम् चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते अहम् ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम् वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रति यास्यति न मे गर्वितमायस्तम् सहिष्यति दुरात्मवान् कृतम् तारे सहायत्वम् दर्शितम् सौहृदम् मयि शापितासि मम प्राणैर्निवर्तस्व जनेन च अलञ्जित्वा निवर्तिष्ये तमहम् भ्रातरम् व्रणे तम् तु तारा परिष्वज्यवालिनम् प्रियवादिनी चकार रुदती मन्दम् दक्षिणा सा प्रदक्षिणम् ततः स्वस्त्ययनम् अन्तः पुरम् सहस्रेभिः प्रविष्टा शोकमोहिता प्रविष्टायाम् तु तारायाम् सहस्रेभिः स्वमानयम् नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन् स निश्वस्य महारोषो बाली परमवेगवार् सर्वतश्चारयम् दृष्ट्यम् शत्रुदर्शनकाङ्क्षया सदर्श ततः श्रीमान् सुग्रीवम् हेम सुसंवीतमवष्टब्धम् दीप्यमानमिवानलम् तम् स दृष्ट्वा महाबाहुः सुग्रीवम् पर्यवस्थितम् गाढम् परिदधेवासो वाली परमकोपनः सवाली वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् सुग्रीवमेवाभिमुखो ययौ योद्धुम् कृतक्षणः श्रेष्ठम् मुष्टिम् समुद्यम्य संरब्धतरमागतः सुग्रीवोऽपि समुद्दिश्य वालिनम् हेममालिनम् तम् वाली क्रोधताम् राक्षः महावेगमिदं रणकोविदम् आपतन्तम् महावेगमिदम् वचनमब्रवीत् एषमुष्टिर्महान् बद्धो गाढः सुनिरताङ्गुलिः तव चैष हरन्प्राणान्मुष्टिः पततु मूर्धनी ताडितस्तेन तम् क्रुद्धः समभिक्रम्यवे गतः अभवच्छोणितोद्गारी सा पीड इव पर्वतः सुग्रीवेण तु निःशङ्कम् सालमुत्पाट्यतेजसा गात्रेष्वभिहतो बाली वज्रेणेव महागिरिः स तु वृक्षेण गुरुभारभराक्रान्ता नौ ससार्थेऽवसागरे तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ततो वर्धतवाली तु बलवीर्य समन्वितः सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयत वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः वालिनम् प्रति सामर्शो दर्शयामास राघवम् वृक्षैः स शाखैः शिखरैर्वज्रकोटिनिभैर्नखैः मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः तयोर्युद्धमभूद्घोरम् वृत्रवासवयोरिव तौ शोणिताक्तौ वानरौ वनचारिणौ मेघाविव महाशब्दैस्तर्जमानौ परस्परम् हीयमानमथा पश्यत् सुग्रीवम् बालरेश्वरम् प्रेक्षमाणम् दिशश्चैव राघवः ततो रामो महातेजा आर्तम् दृष्ट्वा हरीश्वरम् सशरम् वीक्षते वीरो बालिनोऽवधकाङ्क्षया ततो धनुषि सन्धाय पूरयामास तच्चापम् कालचक्रमिवान्तकः तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः प्रदुद्रुवर्मृगाश्चैव युगान्त इव मोहिताः मुक्तस्त्ववज्रनिर्घोषः प्रदीप्ता शनिसन्निभः राघवेण महाबाणो बालिवक्षसि पातितः ततस्तेन महातेजा वीर्ययुक्तः वेगेनाभिहतो वाली निपपातमहीतले इन्द्रध्वज इवोद्धूतः पौर्णमास्याम् महीतले आश्वयुक्समये मासि श्रीको विचेतनः बाष्पसंवृद्धकण्ठस्तु वाली चार्तस्वदर्शनैः नरोत्तमः <SILENCIO> स्वसर्ज दीप्तम् तम मित्रमर्दनम् स धूमग्निम् मुखतो यथा हरः अथो शो सुपुष्पिता शोक इवानिलोद्धतः विचेतनो वासवसोऽनुराहवे प्रभ्रंशितेन्द्र ध्वजवत् क्षितिम् गतः इत्यार्षे किष्किन्धाकाण्डे षोडशः सर्गः